कृताम् विन्दुसरो विन्दुसरोरत्नैर्मयेन स्फाटिकच्छदाम् अपश्यम् नलिनीम् पूर्णामुदकस्येव भारत वस्त्रमुत्कर्षति मयि प्राहसत्स वृकोदरः शत्रोर्वृद्धिविशेषेण रत्नवर्जितं रत्नवर्जितम् तत्र स्म यदि यदि कुर्यां समारम्भं भीमं हन्तुं नराधिप राधिप वास्माकं गतिः स्यान्नात्र संशयः सपत्नेनावहासो मे स दहति भारत पुनश्च तादृशीमेव वापीं जलजशालिनीं मत्वा शिलासमां तोये पतितोऽस्मि न तत्र माम् प्राहसत्कृष्णः पार्थेन सह सुस्वरम् द्रौपदी च सहस्त्रीभिर्व्यथयन्ती मनो मम क्लिन्नवस्त्रस्य तु जले किङ्करा राजनोदिताः ददुर्वासांसि मेऽन्यानि तच्च दुःखम् परम् मम